श्रीमहात आदिपर् आस्ती आस्तीकम आस्तीक उच सोम वरुण प्रजापति तब भारत स्वस्थ निय शक्रस्य यज्ञः शतसङ्ख्य उक्तस्तथा पुरोस्तुल्यसङ्ख्यम् शतं वै तथा यज्ञोऽयम् तव भारताग्र्य पारीक्षितस्वस्ति नोस्तु प्रियेभ्यः यमस्य यज्ञो हरिमेधसश्च यथा यज्ञोरन्तिदेवस्य राज्ञः तथा यज्ञोऽयम् तव भारताग्र्य पारीक्षितस्वस्तिनोऽस्तु प्रियेभ्यः गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः तथा यज्ञोऽयम् तव भारताग्र्य पारीक्षितस्वस्ति नोऽस्तु प्रियेभ्यः नृगस्य यज्ञस्त्वजमीढस्य चासीत् यथा यज्ञो दाशरथेश्च राज्ञः तथा यज्ञोऽयम् तव भारताग्र्य पारीक्षितस्वस्ति प्रियेभ्यः यज्ञः श्रुतो दिवि देवस्य राज्ञः तथा यज्ञोऽयम् तव भारताग्र्य पारिक्षितस्वस्ति नोऽस्तु प्रियेभ्यः कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयम् च तथा यज्ञोऽयम् तव भारताग्र्य पारीक्षितस्वस्ति नोऽस्तु इमे च ते सूर्यसमानवर्चसः समासते यथा नैषाम् विद्यते ज्ञानमद्य दत्तम् येभ्यो न प्रणश्येत् कदाचित् ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितम् मे ये तस्य क्षितिमाचरन्ति सर्वत्विजः कर्मसु स्वेषु दक्षाः विभावसुश्चित्रभानुर्मर्महात्मा हिरण्यरेता हुत भुः कृष्णवर्त्मा प्रदक्षिणा वर्तशिखः प्रदीप्तो हव्यम् तवेदम् हुत भुक् वष्टिदेवः विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् त्राता लोकेऽस्मिन्स्त्वम् इतथेह प्रजानां मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे खट्वाङ्गनाभागदिलीपकल्प ययाति मान्धातृसमप्रभाव आदित्य तेजः प्रतिमानतेज भीष्मो यथा राजसि स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः प्रभुत्वमिन्द्रत्व धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनां